नारदपुराणं पूर्वार्धम् अध्यायं फिफ्टीन् धर्मराज उवाच पापभेदान् प्रवक्ष्यामि यथास्थूजाश्चयातनाः शृणुष्व धैर्यमास्ताय रौद्रा ये नरका पापिनो ये दुरात्मानो नरकाग्निषु सन्ततं पच्यन् तान् वक्ष्ये भयङ्करफलप्रदान् तपनो वालु काकुम्भौ महारौरव रौरवौ कुम्भीपाको निरुच्छ्वास्य कालसूत्रप्रमर्दनः असिपत्रवनं घोरं लालाभक्षो हिमोत्कटः मूषावस्थावसा कोपस्तथा वैतरणी नदी पश्यन्ते मूत्रपानं च पुरे शक्लदये वज तप्त शूलं तप्तशिला साल्मलिद्रुम एव च तदा शोणितकूपश्च कोरशोणितभोजनः सोमांसभोजनं चैव वह्निज्वालानिवेशनं शिलावृष्टिः व्रिष्टे, शस्त्रवृष्टिर्वन्निवृष्टिस्तथैव च क्षारोदकम् चोष्णतोऽयं तप्ता यः पिण्डभक्षणम् अध शिरशोषणं च मरुत्प्रपतनं तथा तथा पाषाणवर्णं च कृमिभोजनमेव च क्षारोधपानं भ्रमणं तथा क्रकचारणं पुरीशलेपनं चैव पुरीशस्य च भोजनं रेधपानमहाघोरं सर्वसन्धिषुधाडनं धूमपानं पार्श्वबन्धं नानाशूलानुलेपनं अङ्कारशयनं चैव तथा मुसलमर्दमं बहूनि काष्ठयन्त्राणि कषणं चेदनं तथा पतनोत्पादनं चैव कदा दण्डादिपीघनं गजदन्तप्रकरणं नानासर्पैश्च दंशनं सीताम्बुसजनं चैव नासायां च मुखे तथा खो रक्षाराम्बु पानं च तथा लवणभक्षणम् त्रायुच्छेदं स्नायुबन्धमस्ति च्छेदं तथैव च क्षाराम्बुपूर्णरन्ध्राणां प्रवेशं मांसभोजनं पितपानमहाघोरं तथैव श्लेष्मभोजनं वृक्षाग्रापादनं चैव धर्मजनं तथा पाषण्डधारणं चैव शयनं पिपीलिकादंशनं च वृचिकैश्चापि पीडनं व्याघ्रपीडाशिवापीडा तथा महिषपीडनं कर्दमे शयनं चैव दुर्गन्धपरिभूषणं बहुसश्चार्धशयनं महातिक्तनिषेवणम् अत्युष्णतैलपानं च महाकडुनिषेवणं कषायोदकपानं च तत्पाषाणतत्क्षणम् अत्युष्णशीतस्नानं च तदा दशनशीर्णनम् तत्ताय ता शयनं जैवक्ष्या यो भारस्य बन्धनं याधना कोटिकोडिशः अपि वशसहस्रेण नाहं निगदितुं क्षमः ये तेषु यसि यत् प्राप्तं पापिनः क्षितिरक्षक तत्सर्वं सम्प्रवक्ष्यामि तन्मे निगततशृणु ब्रह्महाज सुराबीजस्तेयीज गुरुतल्पगः महापादकिनस्त्वेदे तत्सङ् सर्गी च पञ्चमः पान्ति भेदिवृदापागिनित्यं आदेशिवेद विक्रेद पञ्चैदे ब्रह्मदातकाः ब्रह्मणं यशमाहूय दास्यामिति स्नानार्थं भोजनार्थं वा गच्छतो ब्राह्मणस्य यः समायात्यन्तरायत्वं तमासुर्ब्रह्मधादिनं पस् निन्दासु निरतश्चात्मोत्कर्षरतस्व यः असत्यनिरतश्च इव ब्रह्म परिकीर्तितः अधर्मस्यानुमन्ता च ब्रह्म परिकीर्तितः अन्ये द्वेग रदस्चैव अन्येषां दोषसूवकः दम्भासाज रथश्चैव ब्रह्म हेत्यभिधीयते नित्यं प्रदिग्रह रथस्तदा प्राणिवदे रथः अधर्मस्यानुमं मन्ता च ब्रह्म परिकीर्तितः ब्रह्मगत्य समं पाव मे वहुविधं नृप सुरापानसमं प्रापं प्रवक्ष्यामि समासदः कणान्नभोजनम् चैव गणिकानाम् निषेवणम् पतितान्नादनम् चैव परित्यागो देवलानाम् च भोजनम् सुरापहयोषित्संयोग सुरापानसमस्मृदः यच्छूद्रेण समाहतो भोजनम् कुरुते द्विजः सुराभि सखि विज्ञेय सर्वधर्म बहिष्कृतः यशुद्रेणाभ्यनुज्ञातः प्रेष्य कर्म करोति च सुरापानसमं पापं लभते स नरा दमः एवं बहुविधम् पापं सुरापानसमं स्मृतम् हेमस्तेय समं पापं प्रवक्ष्यामि निशामया कन्दमूलफलानां च कस्तूरीपटवाससां सदा स्तेयम् जरत्नानाम् स्वर्णस्तेय समम् स्मृतम् ताम्रायस्त्रपुरापुकांस्यानामाज्यस्य मधुनस्तधा स्तयं सुगन्धद्रव्याणां स्वर्णस्तेयशमं स्मृतं क्रमुकस्याभिकरणमम्भसां चन्दनस्य च पर्णरसापकरणं स्वर्णस्तेयशमं स्मृतं पितृयज्ञपरित्यागो धर्मकार्यविलोपनं यतीर्णां निन्दितं जैव स्वर्णस्तेय समं स्मृतं भक्ष्याणां चापहरणं धान्यानां हरणं तद्धा रुद्राक्षहरणं जैव स्वर्णस्तेयसमं स्मृतं भागिनीगमनं जैव पुत्रस्त्रीगमनं तद्धा रजस्वलाभिगमनं गुरुतल्पसमं स्मृतं हीनजात्याभिगमनं मध्यपस्त्रीनिषेवणम् परस्त्रीगमनं चैव गुरुतल्पसमं स्मृतं चैव वा यस्य स्त्रीनिषेवनं विश्वस्वगमनं चैव गुरुतल्पसमं स्मृतम् अकाले कर्मकरणं भुत्रीगमनमेव जर्मलोपशास्त्रनिन्दा गुरुतल्पसमं स्मृतम् यदेष्वकतमेनाभि सङ्गकृतत्समो भवेद् यथा कथञ्चित् पापानामेतेषां परमर्षिभिः शान्तैस्तु निष्कृतिर्दृष्टा प्रायच्चितादिकल्पनैः प्रायच्चितविहीनानि पापानि शृणु भूपते समस्तपापतुल्यानि महानरकादानि च ब्रह्महत्यादिपानां कथञ्चित् द्वेष्टि यस्तस्य निष्कृतिर्नास्ति कुत्रचित् विश्वस्तखादिनं चैव हृदन्कानां नरेश्वर शूद्रस्त्रीसङ्गिनं चैव निष्कृतिर्नास्ति कुत्रचित् शूद्रान्नपुष्टदेहानां वेदनिन्दारतात्मनां सत्कथा निन्दकानां च नेहामुत्र च निष्कृतिः बौद्धालयं विषद्यस्तु महापद्यपि वैद्विजः न दस्यनिष्कृतिर्दृष्टा प्रायश्चिदशतैरपि बौद्धा पाषण्ठिन प्रोक्ता यदो वेदविनिन्दकाः तस्माद्विजस्तान्नेक्षेद यदो धर्मबहिष्कृताः ज्ञानदो ज्ञानदो वापि द्विजो बोद्धालयं विषेद ज्ञात्वा चेन्निष्कृतिर्नास्ति शास्त्राणामिति निश्चयः एतेषां पापबाहुल्यान्नरकं कोटिकल्पकं प्रायश्चित्तविहीनानि प्रोक्तान्य च प्रभो पापानि तेषां नरकान् कदितो निशामय महापातकिनस्ते सुप्रत्यगं युगवासिनः तदन्ते पृथिवीमेत्य सप्तजन्मसु गर्दभाः तदस्वनो विद्धदेहा भवेयुर् दशजन्मसु विक्रमय्य सर्पा द्वादशजन्मसु तदसहस्रजन्मानि मृगाद्या पशवो नृप शताब्दं स्थावराश्चैव ततो गोधाशरीरिणः ततस्तु सप्तजन्मानि चाण्डाला पापकारिणः तद षोडश जन्मानि शूद्राध्याहीनजादयः ततस्तु जन्मद्वितये दरिद्राव्याधिपीडिताः प्रदिग्रहपरा नित्यं ततो निरयगाः पुनः असूयाविष्टमनसो रौरवे नरके स्मृतं तत्र कल्पद्वयं स्थित्वा चाण्डाला शतजन्मसु मादस्वेदि यो ब्रूयाद्गवान् गिब्राह्मणेषु च शूनां योनिषतं गत्वा चाण्डालेषूपजायते तदो ततो विष्टाकृतमिश्चैव ततो व्याक्रस्त्रिजन्मसु तदन्ति नरकं यादि युगानमेकविंशतिं परनिन्दपरा ये च ये च निष्ठुरभाषिणः दानानां विघ्नकर्तारस्तेषां पापफलं शृणु मुशलोलूकलाभ्यान्दु चूर्ण्यन्ते तस्कराभृश्यं तदन्ते तप्त पार्शाणग्रहणं वत्सरत्रयं ततश्च कालसूत्रेण भिद्यन्ते सप्तवत्सरान् शोदन्तश्योचन्दस्वानिकर्माणि परद्रव्यापहारकाः कर्मणा तत्र पच्यन्ते नरकाङ्गिषु सन्ततम् सरस्वसूचकानां च नरकम् शृणुदारुणम् यावदयुगसहस्रम् तु तप्तायः पिण्डभक्षणम् सम्पीड्यते जरसनाः सम् दं शैर्भृषदारुणैः निरुच्छ्वाः सम् महाघोरे कल्पार्थम् परस्त्रीलोलुपानां च नरकं कथयामिदे तप्तस्ताम्रस्त्रियस्तेन सुरूपाभरणैर्युधाः यादृशीस्तादृशीस्ताश्च रमन्ते प्रसभं बहु विद्वन्तं भये प्रसभं च क कथयन्तश्च का, तत्कर्म नयन्ते नरकान् क्रमाद अन्यं भजन्दे भूपालपदिं त्यक्त्वा च तत्पाय स्त्रियः तत्पाय शयने बलाद पादयित्वा रमन्ते च बहुकालं बलान्विताः तदस्ताोषितो यस् स्तम्भं समाश्लिष्य तिष्ठन्ध्याब्दसहस्रहं ततः क्षारोदकस्नानं क्षारोदकनिषेवणं तदन्ते नरकान् सर्वान् भुञ्जदेऽब्दशतं शतं यो हन्दिब्राह्मणां गाञ्चक्षत्रियं च नृपोत्तमं स चाभियादना सर्व कल्पेषु पञ्चसु यः शृणोति महन्निन्दां सागरं तद्फलं शृणो तेषां कर्णेषु धाप्यन्ते तप्ताह्यकीलसञ्चयाः ततश्च तेषु चित्तेषु तैलमत्युष्णमुल्भणं पूर्यते च ततश्चापिं कुम्भिपाकं प्रपद्यते नास्तिकानां प्रवक्ष्यामि विमुखानां हरेहरौ अभग्धानाम् hmm. अब्धानां कोडिपर्यन्तं लवणं भुञ्जदे हि दे, दे ततश्च कल्पपर्यन्तं रौरवे तप्तसैकदे भज्यं ते पापकर्मो पापकर्माणोऽन्येप्येवं नराधिप ब्राह्मणान्ये निरीक्ष्यन्ते कोपदृष्ट्या नराधमः तप्तसूजीसहस्रेण चक्षुस्तेषां प्रसूर्यते ततः क्षाराम्बुधराभिषेच्यन्ते नृपसत्तमः ततश्च क्रकर्चेर्कोजायर्भिद्यन्ते पापकर्मणः विश्वासकादिनां चैव मर्यादाभेदिनां तदा पर्यान्न लो लुपानां च नरकं शृणुदारुणं स्वमांसभोजिनो नित्यं भक्षमाणा स्वभिस्तुते नरकेषु समस्तेषु प्रत्येकं शब्दवासिनः प्रग्रहरता ये च ये वैनक्षत्रपाठकाः ये जलपान्नानां भोजिनस्तान् शृणुष्व मे राजन्ना कल्पपर्यन्तं या धना स्वासु दुःखिताः पच्यन्ते सततं सदा तदस्तैलेन पूज्यन्ते कालसूत्रप्रपीडिताः ततः क्षारोदकस्नानमूत्र विष्ठानिषेवणं तदन्ते भुवमासाद्य भवन्ति म्लयच्छजादयः अन्यो द्वेगरदाह्ये दु अधिवैतरणीं नदीम् त्यक्तपञ्चमहायज्ञालाभक्षं व्रजन्ति हि उपासना परित्यागी रौरवं नरकं व्रजेद कुवदां कुर्वदां भूपदे यादनाश्वासु पच्यन्ते यावदा चन्द्रतारकं ग्रामेषु भूपालवरो यः कुर्यादधिकं करं कुलो भुङ्गे नरकं कल्पपञ्चसु विप्रग्रामकरादानं यो नो मन्दादुपापकृद स एव कृतवान् राजन् ब्रह्म हत्यासहस्रकं कालसूत्रे महाघोरे सभसे द्विचरुर्युगं ययोनौ च वि यो नौ च पशु यो रेदो भोजनं लभेद वत् सा कूपं ततः रेदो भोजी भवेन्मात्य सर्वलोकेषु निन्दितः उपवासदिने राजण्डर् ददावनकृन्नरः सखोदं नरकं यादिव्याघ्रपक्षं च दुर्युगं यस्व यस्वकर्मपरित्यागी पाषण्डी इत्युच्यते बुधैः तत्सङ्ककृतमोघस्यात् तावूभावधिपा विनौ कल्पकोटिसहस्रेषु प्रान्पुत्रो नरकान्क्रमाद देवद्रव्यापकर्तारो गुरुद्रव्यापहारकाः ब्रह्म हत्याव्रतसमं दुष्कृतं भुञ्जते नृपाम् अनाथधनकर्तारो ह्यनाथं ये द्विषन्ति च नरके वसन्ति स्त्री स्त्रीशूद्राणां समीपे तु ये वेदाध्ययने रथाः तेषां पापबलं वक्ष्ये शृणुष्व सुसमाहिताः अथ शीर्षोध्वपादाश्च कीलितास्तम्भकद्वये धूम्रपानरदा नित्यं तिष्ठन्त्यां ब्रह्मवत्सरम् जले देवालये वापि यस्त्यजे देहजं मलं भ्रूणहत्या समं पापं सम्प्रान् प्रोक्त्यधिदार्जुनं दन्तास्ति केशनखरान्ये त्यज्यन्तमरालये के जले वा भुक्तशेषं च तेषां पापफलं शृणु प्रासप्रोदाहलैर्भिन्ना आर्तरावविराविणः अत्युष्णतैलपागेरितप्यन्ते भृषदारुणे कुर्वन्ति दुःखसन्तप्तास्तदोऽन्ये शुव्रचन्ति च ब्रह्म संहरदेयस्तु गन्धकाष्ठं तथैव स यादि नरकं घोरं यावदा चन्द्रतारकं ब्रह्मस्वभरणं राजन्निकामुत्र च दुःखदम् इह सम्बद्विनाशाय परत्र नरकाय च कूढसाक्ष्यं वदेद्यस्तु तस्य पापफलं शृणु स यादि यादना सर्वां यावदिन्द्राश्च दुर्दश इहपुत्राश्च विनश्यन्ति परत्र रौरवं नरकं भुङ्े तदोन्यानपि चक्रमाद ये कामिनो मर्त्या मिध्या च मिथ्या सुखे तेषां सुखे जलौकास्तु पूर्यन्ते पन्नगोपमाः एवं षष्टिसहस्राब्दे तदः क्षाराम्बुसेचनं ये वृद्धा मांसनिरधास्तेयान्दिक्षारकर्दमं ततो गजर्निपात्यन्ते मरुत् प्रपदनं यथा तदन्ते भवमासाद्यहीनाङ्गा प्रभवन्ति च य स्त्वार्तौ न भिगच्छदस्वस्त्रीं य मनुजेश्वर स यादि रौरवं घोरं कन् अन्याचाररथं दृष्ट्वा यः न निवारयेद् तत्पापं समवान् भवति तावुभावपि पापीनां पापगणानां कृ पापगणनां कृत्वा नेभ्यो दिशन्दि तुल्य पापास्ते मिथ्यात्वे द्विगुणा नृप अपापे पादकं यस्तु समरोप्य विनिन्दति सयादिनरकं घोरं यावञ्चर्द्रार्कतारकं पापिनां निन्द्यमानानां पापार्थं क्षयमेभि च यस्तु व्रतानि सङ्गृह्य असमाप्य परित्यजेत सोऽसि पत्रेऽनुभूयार्तिं हीनाङ्गो जायते भुवि अन्यैः संगृह्यमाणानां वृदानां विघ्नकृरः अतीव दुःखदं रौद्रं सयादिश्लेष्मभोजनं न्याये च धर्मशिक्षायां पक्षपातं करोधियः न तस्य निष्कृतिर्भोय प्रायश्चित्तायुधैरभिम् अभोज्य भोजि सम्प्राप्यं वि भोज्यं दुःसमायुधं सदा भवेत् अवमान्यद्विजान्वाग्भिर्ब्रह्महत्यां च विन्दति सर्वाश्चायादना भुक्त्वा चाण्डालो दश जन्मसु यस्तु विघ्नं समाचरेद ब्रह्महत्या समं तेन कर्तव्यं प्रथमे वच अपहृत्यपस्यार्थं यः परेभ्यः प्रयच्छति अपहर्ता प्रतिश्रुत्या प्रदानेन लालाभक्षं व्रजे नरः यदि निन्दापरो राजन् शिलानमात्रे प्रयातिः आरामच्छे दिनो यान्ति युगानामेघविंशतिं दिन स्वभोजनं ततः सर्वा भुञ्चते यादनाप्रमाद भेतारस तडागानां च भूपदे पुष्पारामभिधश्चैव यां गतिं यान्ति तच्छृणो यादनाश्वासु सर्वासु पच्यन्ते वै पृथक् पृथक् ततश्च विष्टाक्रमय कल्पानामेकविंशतिं ततश्चान्दालयो न जन्मानि भूपदे ग्रामविध्वंसकानां दुदाखकानां च लुम्बदाम् माहत्पापं तदा द्वेष्टुं निजायुषा उच्छिष्टभोजिनो यजमित्रद्रोह पराश्च ये एतेषां यादनास्तीव्राभवन्द्या चन्द्रतारकम् उच्छिन्नपितृस्ते व्यज्या पापानां यादानानां च धर्माणां चाभिभूपदे एवं बहुविधा भूप यादनां पापकारीणां तेषां तासां च संख्यानां कर्तुं नालमहं प्रभो पापानां यादनानां च धर्माणां चाभिभूपदे संख्यां निगदितुं लोके कः क्षमो विष्णुना विना एतेषां सर्वपानां धर्मशास्त्रविधानदः प्रायच्चित्तेषु चीर्णेषु पापराशि प्रणश्यति प्रायश्चित्तानि कार्याणि समीपे कमलापदेः न्यूनादि रिक्तकृत्यानां सम्पूर्तिकरणाय ज गङ्गा चतुलसी चैव सत्सङ्गो हरिकीर्तनम् अनसूयाह्या हिंसाय सर्वेऽप्यदेहि पापाः विष्णु अर्पितानि कर्माणि सफलानि भवन्ति अनर्पितानि कर्माणि भस्मविन्यस्तद्रव्यवद नित्यं नैमित्तिकं काम्यं यच्चन् मोक्षमाधनं विष्णौ समार्पितं सर्वं सात्विकं सफलं भवेद अरिभक्तिपरा नृणां सर्वं पापप्रणाशिनी सा भक्ति तामसै तामसैराजसैश्चैव सात्विकैश्च नृपोत्तम यच्चान्यस्य विनाशार्थं भजनं श्रीपदे ता सा तामस्याधमा भक्तिकलभावद्धरा यदः योर्चयेतैदवधिया स्वैरिणी स्वपतिं यथा नारायणं जगन्नाथं तामसी मध्यमातु देवा सा देवापूजापरान् दृष्ट्वा मात्सर्याद्योर्चयेद्धिरं सा भक्तिपृथिवीपालतामसी चोत्तमा स्मृता धान्यादिगं यस्तु प्रार्थयन्नर्चये ध्वरिं श्रद्धया परया युक्तसा राजस्य धमा स्मृता यस्सर्वलोकविख्यातकीर्तिमुद्दिश्य माधवम् अर्चयेत् परया भक्त्या सामध्या राजसे सलोक्याधिपदं यस्तु समुद्दिश्यार्चयेद्धरिं सा राजस्युत्तमा भक्तिकीर्तिता पृथिवीपदे यस्तु स्वकृतपापानां क्षयार्थं प्रार्चयेद्वरिं श्रद्धया परयोपेदः सात्त्विक्यधमा स्मृता हरेदं प्रियमेदि शुश्रूषां कुरुते तु यः श्रद्धया संयुदोभूय सा सात्विकी मध्यमा तु विधिबुद्ध्यार्चयेद्यस्तु दासवत्त्रीपतिं नृपभक्तीनां प्रवरासाधूत्तमा सात्विकी स्मृता महिमानं हरेर्यस्तु किञ्चित् कृत्वा प्रियो नरः तन्मयत्वेन सन्तुष्टस्थ भक्तिरुत्तमोत्तम अहमेव परो विष्णुर्मयि सर्वमिदं जगद इति यः सततं पश्येत्तम् विद्यादुत्तमोत्तमम् एवं दशविधभक्तिसंसारच्छेदकारिणी तत्रापि सात्विकी भक्तिसर्वकामफलप्रदा तस्मात् शृणुष्वभूपालसंसारविजिगीर्षुणा स्वकर्मणो विरोधेन भक्तिकार्या जनार्दने यस्वधर्मं परित्यज भक्तिमात्रेण जीवति न तस्य दृश्यते विष्णुराचार्येणैव दृश्यते सर्वागमानाम् आचारप्रथमं परिकल्पदे आचारप्रभो धर्मो धर्मस्य प्रभुरच्युतः तस्मात् कार्याहरे भक्तिस्वृ स्वधर्मस्याविरोधिनी सदाचारविहीनानां धर्मा अप्यसुखप्रदाः स्वधर्महीना भक्तिष्वाप्याकृतैव प्रकीर्तिता यत्तु पृष्ठं त्वया मया तस्माद्धर्मपरो भूत्वा पूजय सुजनान्दनं नारायणमणीयांशं सुखमेष्यसि शाश्वतं शिव एव हरिसाक्षात् धरिरेव शिवस्वयं द्वयोरन्तरदृग्यादिनरकान्कोटिशकलः तस्माद्विष्णुं शिवं वापि समं बुद्धा समर्चयत् भेदकृद्दुःखमाप्नोति इह लोके परत्रजा यद्धर्त महा मायातस्त्वत्समीपं जनाधिपतत् वक्ष्यामि सुमते सावधानं निशामय आत्मकादकपाप्मानोद्दग्धा कपिलकोपदका वसति नरके ते तु राज्यं स्तव पितामहा तानुदरमहाभागङ्गानयनकर्मणा गङ्गासर्वाणि वा पाणि नाशयत्येव भूपदे केशास्ति न कदन्ताश्च भस्मापि नृपसत्तमा न यदि विष्णुसदनं स्पृष्टा काङ्गेन वारिणा यस्यास्ति भस्म वा राजं गङ्गायां स सर्वपापनिर्मुक्तप्रयादिभवनं हरेः यानि कानि च प्रोक्तानि तव भूपदे तानि कर्माणि नश्यन्ति गङ्गाबिन्दु अभिषेचनाद सनक उवाच इत्युक्त्वा मुनिशार्दूलमहाराजं भगीरथं धर्मात्मानं धर्मराजर् स अद्य तदा सदुराज महाप्राज्ञ निक्षिप्य पृथिवीं सर्वं सजीवेषु यौवनं तोहिना हिनाद्रौ ततो गत्वा नरनारायणाश्रमाद पश्चिमे तु हिनाक्रान्ते शृङ्गे षोडशयोजने तपस्तप्त्वा नयामास गङ्गां त्रैलोक्यपावनीम् इति श्रीबृहन्नारदपुराणे पूर्वभागे पद्मपादे धर्माख्याने धर्मराजोपदेशेन भगीरथस्य गङ्गानयनोद्यमवर्णनं नाम पञ्चदशोऽध्यायः ओम्